गणेशपुराणं क्रीडाखण्डम् अध्यायम् फिफ्टि सेवेन् क उवाच तस्मिन् प्रयादे दैत्येन्द्रे प्रागुल्मेषु गदा नराः धावमानानृपं प्रोचुर्भुक्तवन्दं नरान्दगः आगदो दैत्यराजोऽसौ चतुरङ्गबलान्विदः पौरावादित्रनिर्घोषान् श्रुत्वा चक्रुर्मः स्वनान् कोलाहलो महानाशीर्लोकानां नगरे भृशं पलायिता दशदिशो लोका राजाधभोजनं त्यक्त्वा प्रोत्तस्तौ स्पर्शवानिव कृत्वा युद्धक्षमं वेषं लोकानाज्ञापयत्पुरा सज्जीभवन्तु युद्धाय भैरीशब्दमकारयद खड्गचर्मधरो राजा निषङ्गी चापवान् बली तनुत्राणि च कङ्काली तं विनायकं जयपूर्वे चदं स्मृत्वा नत्वा चाश्वं समारुहत तृतीयमानकारावंशुत्वा सेना सन्नद्धास्त्वरमणाश्च पत्यश्व स्यन्दनैर्गजैः अधिप्रहृष्टास्ते योधास्त्रैलोक्यग्राससाहसाः नगर्या पूर्वभागे सवेदिकायां स्थितो नृपः अमात्यां सर्ववीरांश्च ददौ वस्त्रधनानि स उवाच समयोऽयं वोद्दर्शयन्तु पराक्रमं विनायकानुग्रहान्नो न भयम् विद्यदे क्वजिद तथापि बलवान्दैत्यो बलाज्जिज्ञे वसुन्धरां जयस्य नियमो नास्ति दैवाधीनाश्च पूरुषाः न सेना लक्षभागेन विद्यते दोब्रवीम्यहम् क्व सा गरः क्व कुम्भोदं क्व खद्योधक्व कियन्तो निषदा दैत्याविनायकबलेन च त्यक्त्वा सामप्रयातोऽसौ सा। विचारक्रियतां हितः मुनिरुवाच तत्राब्रवीन्महामात्यो राजानम्भयविह्वलं चतुर्भिर्बुद्धिमद्भिस्त्वं या हि दैत्यं नरान्तकम् रणं स्वस्वकार्यार्थे नीचानुशरणं शुभम् बृहस्पतिमदं राजन् ब्रवीमि ते शृणुष्व तद श्रुत्वा तत्कुरु राजेन्द्र तदः क्षेमं भविष्यति बृहस्पतिरुवाच कन्याप्रदानसह वस्त्रदानसामाभिधाननमनप्रणयमाणैः तत्कीर्तिकीर्तनतदाप्तजनानुवादमुख्यैरूपायनि च यै रहितानुविहं स्याद मुनिरुवाच स चेद्विनायकं या च दत्त्वा राज्यस्य रक्षणं कर्तव्यमिति मे भादिस्वहितं तद्विचिन्त्यतां ततः सर्वजनः साधुसाध्विधिप्रब्रुवन्नृपं सम्यगुक्तममाप्त्येन वैरच्छेदाय भो विचारयत्सुतेष्येवम् दैत्यास्ते बलवत्तरः रुरुधुस्ताम् पुरीम् सैन्य सर्वे ते शलभा इव मध्ये गदान्नरान् दृष्ट्वा ददहुस्ताम् पुरीम् कलाः प्रज्ज्वालमहानग्निश्च दो दिक्षु विदिक्षु धूमेनाच्छादी तपनो न प्राज्ञाद किंचन कल्पात त्रशीलोका दारुण ध्रिय परे भयादर्न सबालाोषितापी लिलिंगुश्चुंपे पदिव्रतास्त्यजुःप्राणाल्लज्जयादिपरिप्लुताः आरुह्य गोपुरं काश्चिद्देहत्यागं प्रचक्रिरे अपरास्तत्यजुःप्राणां शस्त्रैपाश्यैर्विषैरपि अधिरम्या धृता दूतैर्नीतास्ता स्वामिनं प्रति नरान्धकेन भुक्त्वा ताः प्रेषिता नगरं स्वयं एवं तं प्रलयं दृष्ट्वा मात्यानुचे नृपः पुनः अस्मत्समक्षं योषा चेन्निदा दुष्टर्दुरात्मभिः तदा यशो महन्न स्यात् तस्माद्युद्ध्या महेसुरैः यवमुक्त्वा स्वमश्वं स प्रेरयन्युद्धदुर्मदः सज्यं कृत्वा धनुःसद्यो बाणवृष्टिमथाकरोद आच्छादितो रश्मिमालीदैत्या मोहमुपागमन् धाराधरा यथा धारा, धारा, धारा विमुञ्चन्ति तथा धनुः मुञ्चदि स्मशरैश्चेते निहदा दैत्यसञ्चयाः केचिन्मृताश्च भग्नाश्च केचिन्निश्चरणा कृताः केषाञ्चिदुदरं भग्नं परेषां बाहवो हताः केषाञ्चित् स्फोटिता नेत्राः केषाञ्चिदुरवोऽपि च अमात्या सेनया सार्धं काशीराजं समन्वयुः खड्गैः परश्वधैस्तेतान् परवीरान्निजघ्निरे दादर्सदा केजिपतिता भूतले परे तेपि दैत्या महाशस्त्रजघ्नस्ताजि अंधकारे महारौद्रे सधूलिकते परे निजघ्नुरेव शस्त्रैस्ते वीरान्स्वांश्च परानवि मल्लयुद्धं च च चकृस्ते परस्परजिगीषया अश्वारूढैर्गजारूढैरथारूढैः पदातिभिः पदाताश्च रथारूढा युयुधोः शस्त्रसायकैः एवं सम्भ्रान्तमभव तद्युद्धं तुमूलं मूलं प्रभग्ना दैत्यसेनासा सा तदा यादा पराङ्मुखी सिंहनादं चकारो चै काशिराजो जयान्वितः हर्षात् सेनान्तरं यादो निघ्नन् युद्धे वरान् वरान् भिन्दन् सेनां महाखोरां युद्ध गजो यथा शतं सहस्रं वीराणां सेनामध्ये जखानसः निघ्नन्तं तथा दृष्ट्वा रुरुधुपरसैनिकाः जायमिति बुद्ध्वादे सर्व एव समाययुः तच्चराणाम् महावृष्टिम् सोऽध्वा अमात्ययोस्तु पुत्राभ्याम् सहदे दैत्यपुङ्गवाः सेनाचरामः शब्दम् धृतो राजेदि चक्रीरे तद सेना चराराजो धृद केजिपलायिता मृद केजि क्षदा के के महावने महोक्षेव बलवद्भिवृकैरीव अमुत्रसहत निदूदा नरांदक दग्धा च नगरी सर्वा निवार्यैः सैनिकैस्तु सा तदो नरान्तकस्वीयां जगादवीरसत्तमान् यदर्थमागदा वीरास्तत्कार्यं सिद्धमेवनः न मेस्ति मुनिपुत्रस्य साम्प्रतं जिदे प्रभौ जिदे दुर्गे जिदम् पुरं जिदे बालो जिदेव न संशयः अधानेष्यदि राजा यं बालं निग्रहदोऽधुना यवमुक्त्वा यया वाद्यनिर्घोषैः स तधा काशीराज पुरस्कृत स्तूयमोधब यस्तूबिभ्यो दद विप्रेभ्य श्रीगणेशपुराणे राजनिग्रह नाम, सप्त पंचाश्त ओम।